मकंडेयपुराण अयम एटी 87 देवी महात्म्यं अये सवन ऋषिवाच आज्ञप्तास्ते तदोदैत्याचंडगमान चतुंग युरभ्युद्यतायु ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थितां सिंहस्योपरि शैलेन्द्रशृङ्गे महदि काञ्चने ते दृष्ट्वा तां समादादुमुद्यमं चक्रुरुद्यताः चापासि धरास्तथान्ये तत्समीपगाः ततः कोपं चकारोच्चैरम्बिका ता नरीन्प्रति कोपेन चास्य वदनं मशीवर्णमभूत् तथा ललाडफलकाद्रुतं काली करालवदना विनिष्क्रान्तासिपाशिनी विचित्रखढ्वाङ्गधरा नरमाला विभूषणा द्वीपि चर्मपरिधाना शुष्कमांसादिभैरवा अधिविस्तारवदना जिह्वालनभीषणा निमग्ना रक्तनयना नादापूरिददिङ्मुखा सा वेगेनाभिपतिता खादयन्ती महासुरान् सैन्ये तत्र सुरारीणामभक्षयद तद्वलं पार्ष्णिग्राहाङ्कुशग्राहि योधखण्डासमन्वितान् समाधायैकहस्तेन मुखे शिक्षेपवारणान् तथैव योधं तुरगैरथं सारथिना निक्षिप्य वक्त्रे दशनैश्चर्वयन्त्यधिभैरवम् एकं जग्राहकेशेषु ग्रीवायामथ चापरं पादेनाक्रम्य चैवान्यमुरस्सान्यमबोधयत तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथा सुरैः मुखेन जग्राहरुषा दशनैर्मथितान्यपि बलिनां तद्बलं सर्वमसुराणां दुरात्मनां ममार्दा भक्षयच्चान्यान्यांश्चा ताडयत्तथा अश्ना निघ था केजिके के जिद्दाड़िता जगम्मीनानाशमसुरा दग्रभिदारणे क्षण नन्मसैन्यमसुरा दृष्टि चंडो भिम भो मीता शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः छादयामास चक्रैश्च मुण्ठः क्षिप्तैः सहस्रशः तानि चक्राण्यनेकानि विशमानानि तन्मुखं बभुर्यथार्कबिम्बानि सुबहूनि खनोदरं ततो जहासादिरुषा भीमं भैरवनादिनी काली करालवक्त्रान्धर् दुर्दर्शदशनोज्ज्वला उद्धाय च महासिंहं देवी चण्डमथावद गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनद छिन्ने शिरसि दैत्येन्द्रश्चक्रे नादं सुभैरवं तेन नादेन महदात्रासिदं भुवनत्रयम् अध मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितं तमप्यपादयत् भूमौ सा गड्गाभिहदं मृषा हदशेषं तदस्सैन्यं दृष्ट्वा चण्डं निपातितं मुण्डं च सुमहावीर्यं दिशोभेजे भयादुरं। चिरञ्चण्डस्य कालीच च गृहीत्वा मुण्डमेव च प्राक् प्रचण्डाट्टः समिश्रमभ्येत्य चण्डिकां मया तवात्रोपहृदौ चण्डमुण्डौ महापशु युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि ऋषिरुवच तावानीतौ तदो दृष्ट्वा चण्डमुण्डौ महासुरौ उवाजकालीं कल्याणी ललितं चण्डिकावाचः श्रीदेव्युवाच यस्माच्चण्डं चमुण्डं च गृहीत्वा त्वमुपागदा चामुण्डेति ततो लोके देवी भविष्यसि इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये चण्डमुण्डवधो नाम सप्ताशीतितमोऽध्यायः ओ